गणेशपुराणं क्रीडाखण्डम् अध्यायम् 88 व्यास उवाच अद्भुतानि चरित्राणि श्रुतानि त्वन्मुखाम्बुजाद ब्रह्मन्नौखौखारीणि गुणेशेन कृतानि वै तथापि श्रोतुमिच्छा नो सर्ववित्तम अधो बालस्य चरितम् पुनर्मे ब्रूहि सादरं ब्रह्मोवाच शृणुष्वहितो ब्रह्मन् गुणेशस्य कथां पुनः श्रुतिरस्य च पपानां संहर्त्री धर्ममोक्षताम् अष्टमे मासिमध्याह्नं ग्रीष्मर्तौ गिरिजा किल ऊष्मणा गेहे साययौ पुष्पवाटिकाम् अशोकाश्चन्दना यत्र पनःसास्रविभीतकाः भी मालती चम्पकाजाती चिञ्जिणी पिजुमन्दकाः पारिजातकवृक्षाश्च खनच्छायाः समन्विताः रम्यं शीतजलं चारु सरकमलमण्डितं तत्र मञ्चकवर्ये सख्यानिदेशुभास्तरे सुष्वाप गिरिजा बालयुक्ता निशङ्कचेतसा सखिभ्यां विजिदा बालव्यञ्जनेनाश्ममुष्टिना सुषोक्ति मघमद्यावत् तावद् दैत्यो महाबलः तल्पासुरयिधिख्यादो वायुरूपो विशत्तदः मञ्जकान्तर्गतः शोध तेजसाकं ययौ दिवं तस्य शब्देन सन्त्रस्ते ते सख्यौ पदिदे भुवि आक्रन्दम् परमं चक्रे पर्यङ्गस्था तदा शिवा व्योमस्तापर्यदेवत्सा धावधावेदि शङ्कर किं मया विकृतं मामुपेक्षसे अयं दैत्योदिबलवान् व्योमाक्रम्य प्रधावति परहस्तगदां कान्तां शक्रः कथमुपेक्षसे अस्य पुत्रस्य योगेन नाना दुःखमभून्मम अस्माद् दैत्यान्मृदिर्मे किं सपुत्राया विनिर्मिता अयमेवन न जातश्चेत् कथं बन्धनमाप्नुयान् माक्रन्दनं श्रुत्वा उमाबालो महामनाः तदा मुहुर्जगर्जासौ कनवद्गर्जयन् दिशः सकम्बे धरणितेन स समुद्रवनाकरा तामध्रष्ट्वादुशोचत्सु गणेषु पादापादेन बालोऽथमञ्चकं समताडयत बिभ्युर्भूतानि सहसा शतधेवा भवन्नभः मञ्चखः खण्डशस्तेन भूत्वा निपतितो भुवि तदस्तल्पासुरो दृश्यो जादो बालो दधारतम् हस्तेनैकेन जननीम् दधारासौ स्वलीलया कनमुक्तं त्वयबिन्दुं चञ्च्वेव चातकः क्षणाद स्कन्धारूढां तुदां कृत्वा शिखां वामेन तस्य च ततस्तत्याज भूदेशे तं बालसहसा पद्मासनं दैत्यदेहे कृत्वा योगीव तस्तिवान् भूमौ पदितो दूरान्मर्दितो बलवत्तरम् प्राणांस्तत्याज दैत्योध वमन्नास्यादसृङ्मुहुः स तु दृष्टो जनैर्दैत्य एकविंशतियो जनः चूर्णयन्वृक्षपाषाणानाश्रमां शरणान्यपि ततो दृष्टो बालकोऽसौ गणः सखिजनैरपि ऊचुस्ते गौरीबालोऽयं रमदे कुशलीबली साधु भ्रान्त्यैव नाजानाद्गनं धरणीं मुनयस्ता मुनयस्तामधोचुस्ते सावधानमनासदि भवदैत्यो हदस्तेन धृत्वा रूपं महत्तरम् उन्मील्यनयने पश्य पुनर्बालं शिवं शुभं क उवाच तद्वाक्यात्प्रतिबुधा सा पश्य दैत्यं च बालकं गौरिवाच विपरीतं मया दृष्टं मूढो बालेन वा कथं हदो नेन महादैत्य एकविंशतियो मातॄणामृणमुत्तीर्णो बालो मे जीवितप्रदः इत्युक्त्वा बालमादाय कारयामः शान्तिकं दत्वा दानानि च ददौ स्तनपानं शिशोरपि दृष्ट्वा ते कौतुकं तस्य प्रशशंसुर्मुदान्वितः एतस्मिन्नन्तरे कोरं चक्रे शब्दं महासुरः दुन्दुभे सदृशं सोऽभिख्यादो दुन्दुभिना मदः यस्य पाणितलाघ्वादा धरा चूर्णत्वमागता आच्छादिदोदिनमणिर्देहेन गगनस्पृशा गणबालस्वरूपेण गौरीबालं जुहावसः यदि ये स्वाङ्गम् कृत्वा तुदं बालं हालाहलफलं ददौ दिभलं बालं शीघ्रमित्यब्रवीच सः दूरदेशात्समानीदं जन्म मृत्युजरापहं सदु जानन्दुष्टभावं फलं तज्जगृहे तदः अभक्ष यदयाचत्स स्थलान्तरमभी पुनः क उवाच अमृतं विशदां याधिविषं तत्तां शिवेच्छया धृत्वा वक्षस्थलं तस्य तत्क्षणादुदतिष्ठत तज्जानुनोर्न्यस्य पादौ पराभ्यां जगृहे शिखाम् पराभ्याश्मश्रुणी गृह्य दोलया मासलीलया ननर्त जानुभागेश्य भूमण्डलभरान्विधः सपीडित उवाच जानुभागादवातर दवातरा भरेण नृत्येन मम देहोदिपीडितः गमिष्यामि स्वलयं गिरिजासुद क उवाच नमोच यदि बालक उदतिष्द भग देहस्तु पूर्वतः बलाचकर्ष बाल मूर्धनम से तत्नालाशिरोगत रुधिराक्दामही सर्वा तत्क्षणं समपद्यत शिरकमलहस्तोऽसौ केलदे गिरिजासुधः शोणितेन विलिप्ताङ्गे गणमात्रेण्यवेदयन् सा गत्वा पश्यति पुत्रं दृष्ट्वा तथाविधं तच्छिरो दुरधः क्षिप्त्वा वस्त्रेण जममार्जतं स्नापयित्वा स्वयं स्नात्वा ददौस्तन्यं तदा मुदा तदसख्यो गणाश्चापच्छुः क्षममभ्रहं सोवाच परमं क्षेमबालके शिवभक्तितः मरीचिरक्षणा चापि कुशलं मम बालके तदस्तेदं निरासुर्वै दुरदो दुष्टदानवं ततो हर्षयुधा जग्मुर्गणसख्यो निजं गृहं पार्वतीकर्षसंयुक्ता सबला प्राविशद्गृहम् इति श्रीगणेशपुराणे क्रीडाखण्डे मञ्जकासुरवधो नामाष्टाशीतितमोऽध्यायः ओम्